ॐ नित्याय नमः ॐ निर्मलायै नमः ॐ निर्गुणायै नमः ॐ नित्यै नमः ॐ निराधारायै नमः ॐ नियै नमः ॐ निशुद्धायै नमः ॐ निरञ्जनायै नमः ॐ नािन्दुकलातीताय नमः ॐ नाबिन्दुकलात्मिकायै नमः ॐ निहिन्य नमः ॐ नगधरायै नमः ॐ नृपनागविभूषितायै नमः ॐ नरकक्लेशनाशिन्यै नमः ॐ नारायणपदोद्भवायै नमः ॐ निरवध्यायै नमः ॐ निराकारायै नमः ॐ नारदप्रियकारिण्यै नमः ॐ नानाज्योति नमः ॐ निधिदायै नमः ॐ निलात्मिकायै नमः ॐ नवसूत्रधराय नमः ॐ नीत्यै नमः ॐ निरुपद्रवकारिण्यै नमः ॐ नन्दजायै नमः ॐ रत्ननवरत्नाढ्याय नमः ॐ नैमिषारण्यवासि नमः ॐ नवनीतप्रियाय नमः ॐ नार्यै नमः ॐ नीलजीमूतनिस्वनाय नमः ॐ निमेषिन्यै नमः ॐ नदीरूपायै नमः ॐ नीलग्रीवाय नमः ॐ निशीश्वर्यै नमः ॐ नामावल्यै नमः ॐ निशुंभग्न्यै नमः ॐ नागलोकनिवासिन्यै नमः ॐ नवजाम्बूनादप्रख्याय नमः ॐ नागलोकाधिदेवतायै नमः ॐ नूपूराक्रान्तचरणाय नमः ॐ नरचित्तप्रमोदिन्यै नमः ॐ निमग्नारक्तनयनायै नमः ॐ निर्घातसमनिस्वनायै नमः ॐ नन्दनोद्यनिलयायै नमः ॐ पार्वत्यै नमः ॐ परमोदारायै नमः ॐ परब्रह्मात्मिकायै नमः ॐ पराय नमः ॐ पञ्चकोशविनिर्मुक्ताय नमः ॐ पञ्चपादकनाशिन्यै नमः ॐ परचित्तविधानज्ञायै नमः ॐ पञ्चिकायै नमः ॐ पञ्चरूपिण्यै नमः ॐ पूर्णिमायै नमः ॐ परमायै नमः ॐ प्रीत्यै नमः ॐ परतेजःप्रकाशिन्यै नमः ॐ पुराण्यै नमः ॐ पौरुष्यै नमः ॐ पुण्याय नमः ॐ पुण्डरीकनिभक्षणाय नमः ॐ पातालतलनिर्भग्नायै नमः ॐ प्रीतायै नमः ॐ प्रीतिविवर्धिन्यै नमः ॐ पावन्यै नमः ॐ पादसहितायै नमः ॐ पेशलाय नमः ॐ पवनाशिन्यै नमः ॐ प्रजापत्यै नमः ॐ परिश्रान्ताय नमः ॐ पर्वतस्तनमण्डलायै नमः ॐ पद्मप्रियायै नमः ॐ पद्मसंस्थायै नमः ॐ पद्माक्ष्यै नमः ॐ पद्मसम्भवायै नमः ॐ पद्मपत्राय नमः ॐ पद्मपदाय नमः ॐ पद्मिन्यै नमः ॐ प्रियभाषिण्यै नमः ॐ पशुपाशुविनिर्मुक्ताय नमः ॐ पुरन्ध्र्यै नमः ॐ पुरवासिन्यै नमः ॐ पुष्कलाय नमः ॐ पुरुषाय नमः ॐ पर्वाय नमः ॐ पारिजातकुसुमप्रियाय नमः ॐ पतिव्रताय नमः ॐ पतिव्रताय नमः ॐ पवित्राङ्ग्यै नमः ॐ पुष्पहासपरायणाय नमः ॐ प्रज्ञावतीसुताय नमः ॐ पौत्र्यै नमः पुत्रपूज्यायै नमः ॐ पयस्विन्यै नमः ॐ पत्तिपाशधराय नमः ॐ पङ्क्त्यै नमः ॐ पितृलोकप्रदायिन्यै नमः ॐ पुराण्यै नमः ॐ पुण्यशीलायै नमः ॐ प्रणतार्त्रीविनाशिन्यै नमः